श्रीमद्भागवत् महापुराणम् एकादशस्कन्ध अथ सप्तदशोऽध्यायः शुश्रूषमाण आचार्यं सदोपासीत नीचवत् यानसैयासनस्थाने नातिदूरे कृताञ्जलिः एवं वृत्तो गुरुकुले वसेद्भोगविवर्जितः विद्या समाप्यते यावद् बिभ्रज व्रतमखण्डितम् यद्यसौ छन्दसां लोकम् आरोक्षन् ब्रह्माविष्टपं गुरवे विन्यसे देहं स्वाधायापार्थं बृहद्भृत अग्नौ गुरावात्मनि च सर्वभूते सुमां परम् अपृदग्धीरुपासीत ब्रह्मवर्च स्वबुम्ब्यं कल्मष स्थिरां दरीक्षणस्पर्शल्लापक्ष्वेलनादिकं प्राणिनो मिथनीभूतान् अगृहस्थो घृतस्त्यजे शौचमाचमनं स्नानं सन्ध्योपासनमार्जवं तीर्थसेवा जतोऽस्पृस्या भक्ष्यान् सम्भाष्यवर्जनम् सर्वाश्रमप्रयुक्तोऽहं नियमकुलनन्दन मद्भाव सर्वभूतेषु मनोवाकाय संयमः एवं बृहद्व्रतधरो ब्राह्मणोऽग्नेरिवज्ज्वलन् मद्भक्ततिव्रतपश्चाद्दग्धकर्माशयो मलः अथानन्तरमावेक्षन् यथा जिज्ञासितामुगमः गुर्वे दक्षिणां दत्त्वा स्नायाद्गुर्वनुमोदितः गृहं वनं वोपविशेत् प्रव्रजेद्वाज्योत्तमः आश्रमादाश्रमं गच्छेन्नान्यथा मद्बरश्चरेत् गृहार्थी सज सिंहार्यां मुद्वहेदजुगुप्सितां यवीयसिं तु वयसा तां स्ववर्णामनुक्रमात् विद्याध्यदानानि सर्वेषां च द्विजन्मनां प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव जाजनम् प्रतिग्रहं मन्यमान तपस्तेजोयशोऽनुदम् अन्याभ्यामेव जीवेत शुलैर्वादोषदिक्तयो ब्राह्मणस्य हि देहोऽयं शुद्रकामाय नेष्यते तिरुत्थाय तपसेचेह प्रेचानन्त सुखाय च शिरोच्छ मृत्या परितुष्ट चित्तो धर्मं महान्तं ब्रजं जुषाण नय्यर्पितात्मा गृहे एव तिष्ठ नातिप्रसक्त शुपयेति शान्तितम् समुद्भरन्ति ये विप्रं सीदन्तं मत्परायणं कानुद्धरिष्ये आपतद्भ्यो नैर्वाणवान् सर्वासमुद्धरे राजापितेवासनात् प्रजाः आत्मानम् आत्मना धीरो यथा गजपतिर्गजानम् एवं विधो नृपतिर्विमालेनार्कवर्चसाम् विधूयेहाशुभम् कृष्णम् कृष्णं सह मोदते सीदन् विप्रो वणिवृत्त्या प्रणैरेवापदं तरेत् खगेन वापन्पदाक्रान्तो न स्ववृत्त्या कथञ्चन वेश्यवृत्या तु राजन्यो जीवेन् मृगं जियापदे चरेद्वा विप्ररूपेण न स्ववृत्त्या कथञ्चन शुद्धवृत्तिं भजे द्वेष्य शुद्धुकुरुं च क्रियां किच्छान्मुक्तो न गर्हेण वृत्तिं लिप्सेत कर्मणा वेदाध्याय स्वां सदा स्वाहा मल्यन्नाद्य यथोदयं देवर्षि पितृभूतानि मद्रूपाण्यन्वहं यजे यदेक्षं शुक्लेनो शुक्लेनोपर्जितेन वा धनेना पीडयन् श्रित्यान् न्यायेनैवाहरेत्क्रतुन् कुटुम्बेषु न सज्जेत न प्रमाद्येत कुटुम्बपि विपश्चिन्नस्त्वरं पश्येन्दम् अपि दृष्टवत् पुत्रताराप्तबन्धूनां सङ्गमः पान्थसङ्गमः अनुदेहं विहन्त्येते स्वाप्नो निद्रानुगोयताम् इत्थं परिमृशन्मुक्तो गृहे स्वतीर्थीं वद्वसन् न गृहैरुबन्ध्येत निर्ममो कर्मभिर्गृहमेधियैष्ट्वा मामेव भक्तिमान् तिष्ठेद्वदं वोपविशेत प्रजावान् वा परिव्रजेद् यत्त्वा सप्तमतिर्गेः पुत्रवित्तैषणातुरः त्रैण कृपणन्धिर्मूढो ममाहमिति बध्यते अहो मे पितरो विद्धौ भार्या बालात्मजात्मजाः अनाथा मामृते दीना कथं जीवन्ति दुःखिता एवं गृहासि या क्षिप्ता हृदयो मूढधीरयम् अतिप्तस्ताननुध्यायन्मृतोऽन्धं विशुते तमः इति श्रीमद्भागवते महापुराणे पारं हिंसां शयितायाम् एकादश